के शरणम्बके गुरी नरयनी नमोऽस्तु ते श्रीष्टीति विनशन शक्तिभूति सनातनी उनासये उन्नमये नरायणी नमोऽस्तु ते रे दिवी नारायणी नमोस्तु काली काली महाकाली खालि के पपारिणी धर्मकाम्प्ररे दिवी नारायणी नमोऽस्तु काली काली महाकाली खालि के पपाणि सार्वाभि नरदिभि नरयणी नमोऽस्तुते खाली भद्रकाली भद्रकालिकपालिनी दुर्गक्षं शिवदत्री स्वाहा स्वदा नमोऽस्तु ॐ नमः शिवे सर्वत्सदिके sharanaye trayambake gurī nārayanī namo'stu te chriṣṭi śrī tīvi nāśana śakti bhūti sanātani unāsaye unamaye nārayanī namo'stu te śaraṇagat dinārta varētraṁ varayane sarvasya artharya divī nārayanī लिकाली महाकलि कलिके पपारिणि धन्मकाम्प्रिवी नरस्तु कालिकाली महाकाली कलिके पपारिणि सर्वाभि नरदिवी नरयणी नमोऽस्तु चैथं दुर्गक्षां शिवरात्रि स्वाहा स्वदा नमोऽस्तु ॐ नमा सर्वा मङ्गला मङ्गलये शिवे सर्वके शरानये त्र्यम्बके गुरी नरयणी नमोऽस्तु शक्तिभूति सनातनी उन्मये नरात्रयणे सर्वस्यात्यरे दिवी नरायणी नमोऽस्तु काली काली महाकाली कालिके धर्मकाम्प्रिवी नारी नमोस्तु कालिखाली महाकाली कलिके भवारिणि सर्ववियणी नमोऽस्तुत च मङ्गलकालि भद्रकालिकपालिनि दुर्गाक्षां शिवरात्रि स्वदा नमो स्तुते ॐ नमः सर्वमङ्गमङ्गले शिवे सार्वसादिके शरानये त्र्यम्बके गुरी नरायणी नमो स्तुते श्रीस्त्रीस्त्रीतिविनशन Shaktibuti Sanatanī unnā saye unnā maye Narayana namo stute Charṇagat dinata varētraṁ Varayanī Sarvasya tyare divī Narayanī namo stute Kāli Kāli Mahākāli Kālikē āgrini धर्मकां प्री नरायणी नमोस्तु काली महा काली महाकालीके पपारिणी सार्वाभि नरायणी नमोऽस्तु जैत काली भद्रकाली कपालिनी दुर्गाक्षां शिवदत्रे स्वहा स्वदा जै वङ्गवित् समुन्दे जै भूतत्र हारिणी जै सर्वे गते देवी हला शरणये त्र्यम्बके गुरी नरयनी नमोस्तु ते श्रीस्ति श्रीतिसनातनी उनासये उनमये नरय नमोऽस्तु ते शरणगा तपरित्रायने सार्वर्त्यरे दिवि नरायणी नमोऽस्तु काली काली महाकाली खालिके पपारिणि धर्मकाम्प्रेदिवी नरायणी नमोस्तुते काली काली महाकाली खालि के परिणि सर्वाभि नरेदिवी नरायणी चेतान् मङ्गलघालि भद्रकाली गोपालिनी दुर्गक्षं शिवरात्रि स्वाहा स्वदा नमोऽस्तु ॐ नमः सर्वमङ्गलमङ्गलये शिवे सर्वत्सदिके शरणये त्र्यम्बके गुरी नरयणी नमोऽस्तुते श्री स्त्री स्थिति विनशक्तिभूति सनातनी हुनाशयेनमये नरायणी नमोस्ते शरणगतरङ्गस्य रे दिवी नरायणी नमोस्ते कलिखलि महाकलि हलिके कालिकाली महाकालि कलिके पपारिणी सर्वी नरे नरयणी नमोऽस्तु चैतम् ी दुर्गक्षां शिवरात्रि स्वाहा स्वदा नमोऽस्तु ते ॐ नमा सर्वा मङ्गला मङ्गलये श्वे सर्वसदिके शरानये द्राम्बके गुरी नरयणी नमोऽस्तु शक्तिभूति सनातनी ऊनासयेणमये नरास्तु शरणपरिद्रा सर्वस्यात्यरे दिवी नरायणी नमोऽस्तु काली काली महाकाली कालिके अपारी धर्मकाम्प्रदि नरायणी नमोऽस्तु कालिधाली महाकाली कलिके भवारिणि सर्वी नरे दिवी नरायणी नमोऽस्तु च मङ्गलकालि भद्रकालिकपालिनि दुर्गाक्षां शिवरात्रि स्वदां नमोस्तु ते ॐ नमः सर्वमङ्गमङ्गले शिवे सार्वसादिके शरानये त्र्यम्बके गुरी नरायणी नमोऽस्तु ते शक्तिभूति सनातनी उना सये न मये नरायण नमोऽस्तु दिन तपरिद्ररयने सर्वस्यात्यरे दिवी नरयनी नमोऽस्तु ते कालिकालीं महकलि कालिके पारिणी धर्मकां प्री नरा काली काली महाकालीके पारिणि सार्वाभि नरायणी नमोऽस्तु जैतकाली भद्रकाली कपालिनि दुर्गक्षां शिवदत्रे स्वदा जै वन्दवीत् समुन्दे जै भूतत्र हारिणी जै सर्वे गते देवी हलात्रि ramake gurina rayani namo stute shrishthi stiti vinashana shakti bhuti sanatani unasaye unamay rayani namo stute sharnagat dinata paretran parayane sarva syartare divi rayani namo stute के काली महा काली महाकाली खालिके पपारिणि धर्मकाम्प्रदिवी नरायणी नमोस्तुते काली काली महाकाली खालिके पपारिनी सार्वाभि नरदिवी नरायणी नमोऽस्तुते चयतान् मङ्गलघालि भद्रकालीपालिनी दुर्गक्षं शिवदात्रि स्वदा नमोऽस्तु ॐ नमः सर्वमङ्गलमङ्गलये शिवे सर्वत्सदिके शरणये त्र्यम्बके गुरी नरयणी श्री स्थिस्ति विनाशक्तिभूति सनातनी उनासेमये नरायणी नमोस्तु शरणगनित्रयने सर्वस्या नरायणी नमोस्तु फलिकालि महाकलि फलिके par maham kam preredivi narayani namo stute kali kali mahakali kalike paparini sarva vighnare divi narayani namo stute लिनी दुर्गाक्षां शिवरात्रि स्वाहा स्वदा नमोऽस्तु ॐ नमा सर्वा मङ्गलं मङ्गलये शिवेत्सदिके शरानये त्र्यम्बके गुरी नरयणी नमोऽस्तु ी स्थिस्ति शक्तिभूति सनातनी नरायणीस्तु परित्रायने सर्वस्यात्यरे दिवी नरायणी नमोऽस्तु काली काली महाकाली कालिके पपारिणि धर्मकाम्प्रदि नरायणी नमोऽस्तु कालिकाली महाकाली कलिके पारिणि सर्वी नरदिवी नरायणी नमोऽस्तु च मङ्गलकालि भद्रकाली कपालिनि दुर्गाक्षां शिवरात्रि स्वदा नमोस्तुते ॐ नमः सर्वमङ्गमङ्गले शिवे सार्वसारिके शरानये त्र्यम्बके गुरी नरायणी नमोऽस्तुते श्रीस्ति Shakti Bhootī Sanātani Unā Saye Unamaye Narayan Namo Stute Charnagat Dinata Paritran Narayan Sarva Syav Tyare Divi Narayani Namo Stute Kali Kali Mahakali Kalike Padini धर्मकां प्री नरायणी नमोस्तु काली काली महाकाली कलिके पपाणि सार्वाभि नरदिवी नरायणी नमोऽस्तु जैतं मङ्गलकाली भद्रकालि कपालिनि दुर्गाक्षां शिवदत्रे स्वदा नमोस्तु ते जै भङ्गवीत्समुन्दे जै भूतत्र हारिणी जै सर्वे गते देवी हलात्री नये त्र्यम्बके गुरी नरयनी नमोऽस्तु ते श्रीस्ति श्रीति विनशन शक्तिभूतिसनातनी उनासये उन्मये नरायणी नमोऽस्तु ते शरणगा तपरे त्ररयने सर्वस्या नरयनी नमोऽस्तु काली काली महाकाली खालिके पपारिणि धर्मकां प्री नरायणी नमोस्तुत काली काली महाकाली खालि के पपाणि सार्वाभि नरेदिभि नरायणी नमोऽस्तुत भद्रकालिकपालिने दुर्गक्षं शिवरात्रि स्वाहा स्वदा नमोस्तु ॐ नमः सर्वमङ्गलमङ्गलये शिवे सर्वसदिके शरणये त्र्यम्बके गुरी नरयणी नमोऽस्तुते श्री श्रीस्तिविनाशनु शक्तिभूति सनातनी उनाशयेनमये नरायणी नमोऽस्तु शरणगतदिनर्तरं परयने सर्वस्य रे दिवी नरयनी नमोस्तु कलि कलि महाकलि हलिके पारि रेदि नरयणी नमोऽस्तु काली काली महाकाली कलिके पपालिणि सर्वाभि नरदिवी नरायणी नमोऽस्तु चैतं मङ्गलकाली मदरकालिकपालिनी दूर्गक्षां शिवलत्रि स्वाहा स्वदा नमोऽ नङ्गल मङ्गलये श्वे सर्वसदिके शरणनये त्र्यम्बके गुरी नरयणी नमोऽस्तु ते श्रीस्ति स्थिति शक्तिभूति सनातनी ये नरायणी नमोऽस्तु शरणपरिद्रादिवी नरायणी नमोऽस्तु काली काली महाकाली कालिके पपारि धर्मकां प्ररेदिवी खाली खाली काली काली महाकाली कालिके भवारिणि सर्वी नरेदिवी नरायणी नमोऽस्तुते चयतं मङ्गलकाली भद्रकाली कपालिनी दुर्गाक्षां शिवरात्रि स्वदा ॐ नमः सर्वमङ्गमङ्गले शिवे सर्विके शरानये त्र्यम्बके गुरी नरायणी नमोऽस्तुते श्रीस्ति स्थितिविनशन शक्तिभूतिसनातनी उना सये नमये नरायणी नमोऽस्तुते तपरिद्रेदिवी नरायणी नमोऽस्तु काली काली, काली काली के कालिके पारिणि धर्मकामदिवीं नरायणी नमोऽस्तु काली कालीं महाकाली महा काली, अलिके िनी सार्वाभिद्रि कपालिनि दुर्गक्षं शिवदत्रे स्वदा नमोस्तु जयत् समुद जै भूतन्त्र हारिणी जै सर्वे गते देवी कला